अथर्वेदेषष्ठाष्टके पञ्चमोऽध्यायः ओ आत्वा रथञ्यथोदये सुम्नाय वर्तयामसि तु कूर्मिश हमिन्द्रिष्ठसत्पते तु शुष्म तु विक्रतोशी एव विश्वजामते आपप्रातमहित्मना यस्य ते महिना महः परिज्ञायन्दमीयतोः हस्ता वज्रम् हिरण्यजम् विश्वानरस्य वस्पतिमना आनदस्य शवसः एवै ईष्टदर्शनीना मूतीहुवेरथाना अभीष्टये सदा वृधम् स्वर्मेढे श्रुयन्नराः नानाहवन्त ऊतये परो मा आप्रभृति ईशमविन्द्रमुग्रम् सुराधसम् ईशानञ्चिद्वसो ना त्वन्त्राधसे ता मह इन्द्रम् चोदामि पीतदे ए यः पूर्व्यामनुष्टुतिमीशे कृष्टीनाम् ऋतुः न यस्य ते शवसा न सख्यमानम् शमत्याः न किशवाहंसितेन शत सूर्ये एमहद्धनम् जये एम पृत्सुवज्रिवः इन्द्र यथा आचिदाभिथवाजेषु पुरमाय्यम् यस्य ते स्वादुसख्यम् स्वाद्वि प्रणीतिरद्रिवः यज्ञोऽपि तन्तसाय्याः उरुणस्तन्दे उरुक्षया यनस्कृति उरुणो यन्ति जीवसे उरुन्द्रभ्य उरुङ्गव उरुम् रथा आयपन्था देववेदिम्मनामहे उपमा षडद्वाद्वानरः सोमस्य हर्ष्याः तिष्ठन् विस्वादुरातयाः ऋद्राविन्द्रोत आददेहरेस्य सोनवे आश्वमेधस्य रोहिता सुरथा अङ्गातिथिग्वे स्वभीषोऽङ्ग्रार्क्षे आश्वमेधे सुपेशसः इन्द्रोते वधूमतः स चा आपोतक्रतौ सनम् ऐषु चेतद्वृषण्वत्यन्तर्ज्रेष्परुषे स्वभीषुः कषा वते न युष्मे वाजबन्धवो नित्सुश्चरमर्त्याः अवद्यमधिजेधरत् प्रप्रवस्त्रिष्टुभमिषम् मन्दद्वे राजेन्दवे धिया वो ओमेधसा रये पुरन्ध्या विभासते नदम् वोदतीनाम् ग्न्या आनान्धेनो नामिशुध्यसि ता अस्य सूददोहसः सोमम् श्रीणन्ति वृष्टयः जन्म देवानाम् विषस्त्रिष्मारो वचने दिवः अभिप्रकोपतिम् गिरेन्द्रमर्चयथा आविदे सोनम् सत्यस्य सत्पतिम् आहरयः ससृज्रिलेरुषेरथि बर्हिषि यत्राभिसन्द आमहे इन्द्रा यगाव आशिरन्द्वदुह्रे वज्रिणे मधो यत्से विदत् विदत। विष्टमङ्ग्रहमिन्द्रश्चगन्वहि मध्वः पीत्वा स देवहित्रिः सप्तसख्युः पदे अर्चतप्रार्चतप्रियमेधासो अर्चत अर्चन्द्वत्रका उदपुरन्नधुष्मर्चत अवस्वरादिगर्गरो गोधापरिसरिष्मणत् िङ्गा परिचनिष्कतदिन्द्राय ब्रह्मोद्यतम् आयत्पतन्तेन्यः सुदुघा अनपस्फुरः अपस्फुरम् ग्रभाय तसो ममिन्द्रा अपा आदग्निर्विश्वे देवा अमत्सत वरुण इति हक्षयत्तमापो अभ्यनोषत अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिरामिव योऽव्यती्रफाणयत्सुयुक्ता उपदाशुषे तक्वो नेता तदिद्वपुरुपमायो अमुच्यत अते तु शक्र ओ ओहत इन्द्रो विश्वा ऋद्विषाः भिनत्कनेन ओदनम् पच्यमानम् परो गिरा तपः क्षन्महिषम् मृगम् पित्रे मात्रेऽपिभुक्रतुम् आतो सुषिप्रदम् पते रथम् तिष्ठा हिरण्यजम् अथ द्युक्षम् स चैव हि सहस्रपादमरुषम् स्वस्ति कामनेहसम् तङ्घे एमित्थानमस्मि न उपस्परादमासते तव आवर्तयन्तिदावने अनुप्रत्नस्योकसः प्रियमे एधास एषा हितप्रयस आशत यो राजा आदर्शीनाञातारसेभिरध्रिगुः विश्वासान्त्येष्ठो यो वृत्रहाघृणे इन्द्रन्तम् शुम्भगुरुहन्मन्नवसे यस्य धर्तरि हस्तावज्रः प्रतिधायि दर्शतो महो दिबेन सूर्याः न किष्टम् कर्मणा न सद्यश्चकार सदा यत्या व इन्द्र ते शतम् शतम् भूमेरुदस्यो न त्वा आ वज्रिम् सहस्रम् सूर्या अनु न जातमष्ट रोदसी आपप्राथमहिना वृष्ण्या आवृषन् विश्वा शविष्टशवसा अस्मावमघवन्दोमतिम् वृते एव आपदिशन् दीर्घा यो एतग्वाजिज्ञ एतशा जुयोजते हरि इन्द्रो ओ युयोजते तम्बो ओ महो महाय्यमिन्द्रन्दानायसक्षलिम् यो गाधेषु य आरणेषु हव्योपाजेष्वस्ति हव्याः उदोषिणो ओपसो महे मृषशूरराधसे उदोषु मह्यैमघवन्मघत्तजमुदिन्द्रश्रवसे महे त्वन्न इन्द्ररुदयुस्वानिदो मध्ये वसिष्मतुमिण्डोर्वोर्निदासम् शिष्णथो हथैः अन्यपुरतममानुषमयज्वानवदे वयुम् अपस्पः सखा आदुधुवेतपर्वतः सुघ्नायम् पर्वतः त्वन्न इन्द्रासाम् हस्ते एष विष्ठदावने धानान्न सङ्ग्रभाया स्मयुर्भिः सङ्ग्रभाया स्मयोः सखायः उपस्तुतिम् भोजः सूरिर्यो अह्रजः भूरिभिः समहर्षिभिद्भिस्तमिष्यसे यदित्थमेकमेकमिच्छद वत्सान्परा ददाह कर्णगृह्या आमघवाशौरदेव्यो वत्सन्नस्त्रिभ्य आनयत् अजाम् सूरिर्नघातवे कर्णो अग्नेमहो अभिः पाहि विश्वस्या उतरद्विषो मर्त्यस्य महिमन्युः पौरुषे जनीषेवः प्रियजात त्वमिद शिक्षपावान स नो विश्वेभिर्देवेऽभिरोर्जो न पाद्भद्रशोचे प्रजिन्देहि विश्ववारम् न तमग्ने अरातयो वर्तनीयुमन्तरायः यन्त्राय सेदाश्वांसम् म् विप्रमेधसा आतामग्ने एहि नोषिधना आय सत भूती गो सुगन्ता त्वं रयिम् पुरुवीरमग्ने एशुषे मर्ता आय प्रणो नयवस्यो अच्छा पुरुष्याणोपापरा आद अघायते रातवेदः दुराध्ये मर्ता आय अग्नेमाकिष्टे देवस्य रातिमते एवो त्वमे शेवसोऽनाम् स नो वस्व उपमास्यूर्जोऽनपान्माहिनस्य सख्य एव सोज ऋतृभ्याः अक्षा आनः शीरसोज शङ्गिरोऽयन्तु दर्शतम् अक्षा नमसा पुरो वसुं पुरुप्रशस्तमूतदे अग्निम् सोनम् सह सो जातवे एतसन्धानाय पार्याणाम् वितायो भूतवृतो मध्येष्मा होता मन्द्रतमो विषि अग्निम् वो ओदेव यत्ययाग्निम् प्रयत्यध्वरे अग्निन्धेषु प्रथममग्निमर्वत्यग्निम् चैत्रायसाधसे अग्निरिषाम् सख्येतदातु न ईशेयो वार्याणाम् अग्निन्तोकेतन ये शश्व देमहे वसंसन्तलोपा अग्निमे एळिश्वापसे गाथा आभिःशीरशोदिषम् अग्निम् राजे पुरुमेह्हश्वतन्नरोऽग्निम् सुवीतजे एर्दिः अग्निन्द्वेषो यो तवैनो गृणेमस्यग्निम् संयोश्च दातवे विश्वासु विक्ष्वविदे अविष्कृणुध्वमागमदध्वर्युर्वे पुनः विद्वाङ्गस्य प्रशासनम् यदिग्मभ्या अंशुंसी दद्धोतामनावधे विषाणो अस्य दक्षम् अन्तरिच्छन्ति रञ्जने रुद्रम् परो मनीषया गृह्णन्ति जिह्वया चाम्यते जिह्वेत चरन् वत्सोरुषन्निहनिदातारन्नविन्दते वेति स्तो तव अम्ब्यम् उतोऽन्वस्य यन्महदश्वा आपद्योजनम् बृहत् दापारथस्य चदृशे तुहन्ति सप्तैकामुपद्वा पञ्चसृजतः तीर्थे सिन्धोरधिस्मरे आदशभिर्षविभस्वत इन्द्रः कोशमचुच्यबेद खेदजा त्रिवृता आदिवः परित्रिधातुरद्वरम् जूर्णिरे एति न वि ऐयसे मद्वाहोता आलो अञ्जते सिञ्चन्ति नवसा वतमुच्चारक्रम् परिज्ञानम् अभ्यारविरत्रम् पुष्करे मधो अवतस्य विसर्जने गाव उपा आवतावतम् महे यज्ञस्य रप्सुदा उपाकर्णा आहिरण्या आसुते सिञ्चतश्रियम् रोदस्योरभिश्रियम् रसा रथेतवृषभम् तेजाक्या अहं संवत्सा सोन मातृभिः मिथोनसन्तजामिभिः उपस्रक्वे शुभप्सदः कृण्वते धरुणम् दिवे इन्द्रे अज्ञानमस्वाह अध्युषे विषमोर्जम् सप्तपदे मरिः सूर्यस्य सप्त सोमस्य मित्रा वरुणोदिता सूर आददे तदातुरस्य भेदजम् उतोऽन्वस्य यत्पदम् हर्यतस्य निधान्यम् परिद्याञ्जिह्वयातनत उदी राधामृतायते जुञ्जातामश्विना रथम् अन्तिशद्धोऽ तु बामवाः निमिषश्चिज्यवीयसारथेनायातमश्विना अन्तिशद्धोऽ तु बामवाः उपस्तृणीतमत्रये हिमेन घर्ममश्विना अन्तिशद्धोऽ बाबवाः पुहस्थः पुह जग्मथुः पुहश्येनेव पेतसुः अन्तिशद्धोऽतु बाबवाह यदत्य कर्हि कर्हि चिच्छुः श्रोजातमिमम् हवम् अन्तिशद्धोतु बाबवाः अश्विना आयामहोतमाने तिष्ठम् जाम्याप्यम् अन्तिशद्धोऽतु बाबवाः अवन् अवत्रये गृहम् कृणुतम् युगमश्विना अन्तिशद्धोऽतु बाबवाः परे एथे अग्निमातपोपदते बल्वक्रये अन्तिशद्धो ओतु बाबवाः प्रसप्तवध्रिराशसाधारामग्ने रसायत अन्तिशद्भो ऽ तु बाबवाः इहागतम् वृषण्वसो शृणुतम् म इमम् भवम् अन्तिशद्धोऽतु बाबवाः किमिदम् वाणवज्जलतोशस्यते अन्तिशद्भो तु बाबवाः स वानम् वां सजात्यं स मानो बन्धुरश्विना अन्तिषद्भो ओतु वामवाह यो वाम्रजा अंस्यश्विना रथो विजातिरोदसे अन्दिषद्भो ओतु वामवाः आ नो गव्ये एभिरश्वै इस्सहस्रैरुपगच्छतम् अन्दिषद्भो ऽतु वामवाह मा नो गव्ये एभिरश्वै इस्सहस्रे एभिरदीक्षतम् <brahim> अरुणम् सुरुषा प्रुणा अभूतगर्ज्योतिर्तावरे अन्तिषद्भो ओतु बाबवाः अश्विनासु विचाकषद्रक्षम् परशुमाम् इव अन्तिषद्भो ऽ तु बाबवाः पुरन्नधृष्टुजकृष्णया आबाधितो विशा अन्तिषद्भो ऽतु बाबवाः विशो विशो भो अज शिम् वाजयन्तः व्यञ्जना आसो हविष्मन्तो मित्रन्न सर्पिरा आसुतिम् प्रशंसन्ति प्रशस्तिभिः पन्यां सञ्जातवेतसंयो देवतात्युज्यता हव्यान्यैरयद्दिवे आगन्वृत्रहन्तमञ्जेष्ठमग्निमानवम् यस्य श्रुतर्वाबृहन्नार्क्षो अनीकवेधते अवृतम् जातवेतसन्तिरस्तमांसिदर्शतम् घृताहवनवेड्यम् स बाधोऽयम् जना इमे एग्निम् हव्येऽभिरीडते दृह्वा आनासो यतसृजः इयम् मतिरग्ने अधा यस्मदा मन्द्रसुजातसु क्रतो मो रजस्मातिथे सा ते अग्ने शन्तमाचनिष्ठा भवतु प्रिया प्रजा वर्धस्व सुष्ठुतः दधे एतवृत्रतूर्ये अश्वमिद्गाम्रथ प्रान् ते सत्पतिम् यस्य श्रवांसि दोर्वसपन्यम् पन्यम् च कृष्टजाः यन्ता गोपवनो गिराजनिष्ठलग्ने अङ्गिरः सपावकश्रुधेहवम् यन्वाजना समीलते सपाधोपाजसातजे आर्क्षे श्रुतर्वणि मदच्युते शर्भाम् से काविनाम् रक्षा शीर्षा चतुर्णाम् माम् चत्वार आश वश्रविष्ठस्यद्रविप्नवाः सुरथा आशो अभिप्रयोक्षण्डयो न तुग्र्यम् सत्यवित्त्वा आमहेन दिपरुष्ण्यवदे दिशम् नेमा आपो अश्वराशभिष्ठादस्तिमर्त्याः युक्ष्वाहिदे बहूतमाम् अश्वाम् अग्ने रचेरिव निहोता आपूर्व्यः उत नो देवदेवाम् गच्छा वोचो विदुष्टरः श्रद्विश्वापार्याकृधि त्वम् हयद्यभिक्षसह सूनवाहुता प्रतापा आयज्ञयो भुवाः अयमग्निः सहस्रिणो बाजस्य शतिनस्पतेः मूर्धा कबीरयीणाम् तन्नेमि प्रभवो अ यथा नमस्वसु ओतिभिः मे तस्मै नूनमभिद्यया कृष्णेष्म् कमुष्मिदस्य सेनयाग्नेरपाकरक्षसः पडिङ्गोषस्तरामहे मानो देवानाम् विदः प्रश्नाते निपोस्राः कृषन्नहासुरज्ञाः मानः समस्य दूढ्या अः परि द्वेषसो अम्हतिः ओर्मिर्ननाभमावधेत नमस्ते अग्न ओजसे घृणन्त देवकृष्टयाः अमैरवित्रमर्दय कुवित्सुनापविष्टये अग्ने संवेशिषो रजिम् उरुहृदुरुणस्कृति मा नो अस्मिन् महाधने परा वर्भारभृद्यथा संवर्गम् संरजिञ्जय अन्यमस्मद्भिया इयमग्ने सिषक्सुदुच्छुना वर्धा आनो अमवच्छाः यस्या दुषन्नमस्मिनश्यमेव दुर्मखस्य वा सङ्घे लग्निर्वृथापते परस्या अधिसम्बतो वराम् अभ्यातर यत्राहमस्मिताम् अव विद्माहिते पुरा भयमग्ने पितुर्यथा वसः अधारे सुम्नमे इमन् नमोजसा मरुत्वन्तवृञ्जसे अयमिन्द्रो मरुत्सखाभिवृत्रस्याभिरक्षिराः वज्रेण शतपर्वणा वावृधानो मरुत्सखेन्द्रो विवृत्रमीरयत् सृजन् समुद्र्याः अपः अयम् हयेन वा इदम् स्वर्मरुत्तरादम् इन्द्रेण सोमपीतरे मरुत्वन्तमृजेषिणभोजस्वन्तम् विरक्षिणम् इन्द्रङ्गीर्भिर्हवामहे इन्द्रम् रत्ने न मन्मना मरुत्पन्तम् हवामहे अस्य सोमस्य पीतये मरुत्ता इन्द्रमेध्वः पिबा सोमम् शतक्रतो अस्मिन् यज्ञे पुरुष्टुत तुभ्येरिन्द्रमरुत्पते सुताः सोमासो अद्रिवः राहो यन्तमुखिनाः किपेरिन्द्रमरुत्सखा सुतम् तो बन्दिष्टिषु वज्रंशिषा नवोजसा उत्तिष्ठन् नोजसा सह पीत्वे चिप्रे उहे सोममिन्द्रमोसुतम् अनुत्वा रोदसे उभे क्रक्षमाणमभिपेताम् इन्द्रयत्रस्य भवः वाचमष्टापदे महन्नपःस्रक्तिवृतस्पृशम् इन्द्रात्परितण्ड्रम् भमेशतक्रतुर्भिपृच्छदिति मातरम् क उग्राह्ये हृण्मिरे आदेशवस्य ब्रवीदौर्णवाभवेषु ते पुत्र सन्तु निष्ठुराः समित्तान्वत्रःखिलत्खे अरामिदया प्रबुद्धोदस्युभाया प्रतिथाकम् स रामम् त्रिंशतम् इन्द्रः सोमस्य इन्द्रो अब्रह्मभ्य इत् वृधे निराविध्यद्गिरिभ्यः धारयत्तमोदरम् इन्द्रो अबुन्दम् स्वातम्पर्ण एतमिन्द्रजकृषेयुजम् तेन स्तोतृभ्या भरतृभ्यो नारिभ्यो वर्तते सद्यो जातर्भुष्ठिर एतार्चत्नानि ते कृता वरिशिष्ठानि परेण श्वेता विष्णुदा भरदुरुक्रमस्पेषितः शतम् महिषान्धेरपाकमो ओदनम्भराह इन्द्र एक्षन्ते सुकृतम् सोमयन्धनः साधुर्बुन्दो हिरण्यजाः उभा ते एबाहो र्याः सुसंस्कृतऋतोपेचृदो वृथाः पुरोलाशन्नसहस्रमाभर शता चो रघोनाञ्जनङ्गामश्वमभ्यञ्जनम् रजा मना हिरण्यया उत नः कर्णशोभना पुरोणि कृष्णपाभरन्विषेवसो न के इन्द्रेक इन्द्रतेन सुषानसुधा ना उत नान्यस्पच्छोरवागताः पिष्टम् शृणोति पश्यति स मन्युम् मर्त्या आनामतब्धो निचिकीषते पुरादिनश्चिकीषते हृत्व इत्पूर्णमुदरन्तुरस्यास्ति विधतः वृत्रघः सोऽपामुनाः एवसो निषङ्गता विश्वाचसोमसौभगा सुधा त्वपरिहृता वा विद्यपयुर्मकामो अगम्युर्हिरण्ययोः वामश्वजुरेषते वेदिन्द्राहमाशसाहस्ते दात्रम् च नादते दिनस्य वा मघवन् सम्भृतस्य वा पूर्ध्यमस्य काशिनाः अयम् कृत्वभिदिसोमाःप्रः काम्येनाभ्योऽर्णोति यन्नग्नम् भिशक्ति विष्मञ्यत्पुरम् प्रेमन्ध्यन्निःश्रोणोऽभूत् तम् सो अमतनो कृद्भ्यो द्वेषो अभ्योऽन्यकृतेभ्यः यन्तासिवरोधम् तञ्चित्तेतक्षैर्दिव आपृथिम् यादृषिन् या वे एरखस्य चिद्वेषाः अर्थिनोयम् चिरेदर्थम् गच्छानि ददुषो ओरारिम् अवृज्युस्तृष्यतः कामम् विदध्यत्पूर्व्यन्नष्टमुदे एवृतायुमेरयत् प्रेमायुस्तारेदते ईर्णम् सुषेवो नो मृळया तुरदर्थक्रतुरपातः भवानस्सोमसंहृते मानः सोमसंवे विजो मा विवेभिषथा राजन् मानो हाद्यत् विषावधेः अवयत्स्वे धस्थे देवानान्दुर्मे राजन्नपद्विषः सेधमेढो अपस्विधः सेध नष्ट्या अन्यम् बलाकरम् मर्डितारम् शतक्रतो तन्न इन्द्रवृणय यो न शश्वत्पुरा यथामृद्ध्रोवाजसातले सत्तन्न इन्द्रणय किमङ्गलध्रचोदनः सुन्वानस्या वितेजसे उवित्सिन्द्रणश्यकाः इन्द्रप्रणोरथो पश्चाच्चित्सन्तवद्रिवः पुरस्ता आदेम् मे कृधे हन्तो नु किमाससे प्रथमम् नोरथम् कृधे उपमम् वा अवा आ नो वाजयुम् रथम् सुकरम् ते किमित्परे अस्मान् सुजग्युषस्कृति इन्द्रल्यपोरसि भद्रात एतिष्कृतम् यन्धेरत्वियापते मासे एमपद्य आभा आ गुर्वीकाष्ठा आहितम् धनम् अपावृक्ता अरत्नयाः त्वदीयन्नाम यज्ञयै यदाकरस्तदुष्मसे आदित्पतिर्न ओहसे अवे एवृथद्वो अमृता अमन्दे दे भर्जोर्देवा उतयाश्च देवेः तस्मा पुराधः कृणुतः प्रशस्तम् प्रातर्मक्षो धियावसूर्जगम्यात् आदूर इन्द्रक्षुमन्तम् चित्रम् ग्राभम् सङ्ग्रभाय अहाहस्ते दक्षिणेन विद्माहित्वा आ तुरि कूर्मिन् तु विदेष्टन् तुभिमघम् तुमिमात्रमभोभिः न हित्रा आशूरदेवानमर्ता आशोदित्सन्तम् भीमन्नगाम् वारयन्ते एतोऽन्विन्द्रंस्तवामेशानम्बस्पस्पराजम् न राधसामर्थिषन्नः प्रस्तो ओषदुपगासिश्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनोऽभरदक्षिणेनाभिसंयेन प्रमृष इन्द्रमानो वसोर्निर्भाक् उपक्रमस्वाभरधृषदा धृष्णो जनानाम् अदाशोष्टरस्य वेदाः इन्द्रय पुनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् सनुहि सद्योदुवस्ते वाजाः अस्मभ्यम् विश्वश्चन्द्राः वशैष्टभक्षो जरन्ते इति षष्ठाष्टके पञ्चमोऽध्यायः